अथ तृतीयाष्टके द्वादशप्रश्नः प्रारम्भः तुभ्यन्ताङ्गिलस्तमास्यामतम् काममग्ने आशाना त्वा विश्वा आशा अनुनाप्त्यानुमतिरन्विदनुमते त्वम् कामो बोधस्य कामस्तलग्ने ब्रह्मजज्ञानम् विदा विराजा यज्ञो राजोऽयम् आपो भद्रा आदि पश्यामि तुभ्यम्भरन् पूर्वम् देवा अपरेण प्राणास्विष्टम् देवेभ्यो वै स्वर्गो लोकस्थिरो भवद प्रजापदमन्वैच्छद तमिष्टिभिरन्वैच्छित्वम् येष्टयो हवेनामा ता देवा, तमाशा स्मि मास्व रथे रत्याशा भविष्यति मनःस्वर्गम् लोकम् वेत्सतिष्टाकमानन्द आशायी जलम् अनुमत्यै जलम् तदो वैतस्य सत्याशा भवद् अनः स्वर्गल्लोकमत्याह अस्यास्वर्गल्लोकम् विन्देन कामाय स्वाहायै स्वाहा प्रजापतये स्वाहाय लोकाय स्वाहा प्रजापदे कामेन वैष्यामिति अहमवै कामोऽस्मि मा सत्यः कामो भविष्यति तदो वैतस्य सत्यःकामोऽभवत् अनुस्वर्गल्लोकमविन्दत् सत्यो हवास्य कामो भवति अनुस्वर्गल्लोकम् विन्दति वेद श्रोत्र अहमु ब्रह्मा अस्मि मान् अथदे ब्रह्मन् वा यज्ञो भविष्यति न स्वर्गम् लोकम् वेत्सीरि र्गम् वेद श्रोत्रैस्वाहा स्वर्गाय लोकाय स्वाहाकृते प्रजापते यज्ञेन वैश्राम्यसि अहमवै यज्ञोऽस्मि मानुज्ञो भविष्यति अनस्वर्गम् अनमती जरम् ततो वैतस्य सत्यो यज्ञो भवद् अनः स्वर्गम् लोकमविन्दत् सत्यो हवाहस्य यज्ञो भवति अनुस्वर्गम् लोकम् विन्दति वेद स्मः अस्मान् सर्वे कामाः श्रेष्यन्ते मनुस्वर्गम् लोकम् वेत्सीतिरव स्वाहापते स्वाहाय लोकाय स्वाहाति अग्निर्बलिमानस्मि मा सर्वाणि भूतानि बलिगुहरिष्यन्ति अनुस्वर्गम् एतमग्ने कामाय पुरोडाशमष्टाकपालण्डरवम् अनमत्ये जरम् तेदस्मि सर्वाणि भूतानि बलिमहरन् मनस्वर्गम् लोकमविन्दत् सर्वाणि हवास्मि भूतानि बलिगुहरन्ति मनः स्वर्गम् लोकम् विन्दति प्रजापते स्वर्गम् अनुविशति अहमनुवृत्तिरस्मि मान्विधस्वदे सत्यानुवित्तिर्भविष्यति अनुस्वर्गम् लोकम् वेत्स्यति एतमग्नि एकामाय प्रशमष्टाकपात्यैरम् अनुमत्यै जुरम् ततो वेतस्य सत्यानुवित्तिर्भवत् अनुस्वर्गम् लोकमविन्दत् सत्याह वा अस्यानुवित्तिर्भवति अनुस्वर्गम् लोकम् विन्दति एतेन देवम् वेद श्रोत्रजहति अग्नि एकामा विस्वाहानुवित्यै स्वाहा अनुमत्यै स्वाहा अप्रजापति स्वाहा अस्वर्गाय लोकाय स्वाहापदे स्वाहेति एता सप्त स्वर्गस्य लोकस्य द्वारः दिवस्य स्वर्गम् लोकम् विन्दति कामचारो अस्य स्वर्गे लोके भवति एताभिष्टिभिर्विजिते योजयिना एवम् वेदास्वन्विष्टि प्रियै चा भारगो तपसा देवा देवतामग्र आगन् तपस ऋषिश्वरन्वविन्द तपसा सपत् नादीः येनेदम् विश्वम् परिभूतम् यदस्ति कृविषा ब्रह्मपरमन्दभो यत् स एव पुत्रस्य पिता समाता वानुदे शुद्धा प्रतिष्ठा लोकस्य देवी सानो दुशानोपयज्ञमागाहात् कामवत्सामदन्धुहाना श्रद्धा देवी प्रथमजातस्य विश्वस्य भक्ति जगतः प्रतिष्ठा आगुश्रद्धागो हविषा यजामहे सा नो लोकमृतम् दधातु ईशाना देवी भुवनस्याधिपत्नी आगात्सत्यगमोहविरदन्ुषाणम् यस्माद्देवादिग्निरेभवनन्दविश्वे ए अस्मै विधेम हविषाघृतेन यथा देवैः सधमादम् मदेम यस्य प्रतिष्ठार्वन्तरिक्षम् यस्माद्देवादिग्निरेभवनम् च सर्वे तत्सत्यमत्यदुपयज्ञम् न आगाहात् ब्रह्माहुतिरुपमोदमानम् मनसावशे सर्वमिदम्बभूवस्य मनोवशमन्विहायाय गीष्मा हि देवः सह तस्य हीयान् यज्ञमागाहात् आहूतीनामधिपतिम् चेतसाम् च सङ्कल्पजूतम् देवम् यश्चिम् मनो राजान्तः एततो स्याम शरणम् पवित्रम् विततम् पुराणम् येन भूतस्तरतिस्मृतानि येन पवित्रेण शुद्धेन भूताः अधिपाप्मानमरादन्तरेमा लोकस्य द्वारमच्युमत्पवित्रम् ज्योतिष्मद्वाजमानम् महस्वत् अमृतस्य धारावहुधादोहमानम् लोके सजिताम् ददातु अग्निर्मोर्धाभवः अनुनाद्यानुदरन्विदनमधेयत्वम् अव्यवाहग्रस्विष्टम् देवे यो वै स्वर्गो लोकस्थिरोभवद् हे प्रजापदिमब्रमन् प्रजापदे स्वर्गो वैनो लोकस्थिरोऽभूत् तमन्विच्छेति संयज्ञकृतिभिरन्वयैच्छत् कृतभिन्नान्वन्दतष्टिभिरष्टिभिरण्ष्टीनामिष्टित्वम् येष्टयो हवीनामा इष्टोक्षेण परोक्षप्रिया देवाः तन्तपो अब्रवेदपसाम्यपि अहमवैतपो अस्मि मान्विजस्वन्दपो भविष्यति अनुस्वर्गम् लोकम् वेत्स्यतीतिष्टाकपालन्य अनुमत्यै जरम् तदा वेदस्य सत्यं तपो भवद् अनस्वर्गल्लोकमो हवास्य तपो भवति अनः स्वर्गल्लोकम् विन्दतिहा प्रजापतिये स्वाहा स्वर्गाय लोकाय स्वाहाकृते स्वाहेति रश्रद्धाब्रवीत् प्रजापतेः श्रद्धयाभिम्यति अहमवे श्रद्धास्मि श्रद्धा भविष्यति अनुस्वर्गम् इति श्रद्धायै जुरम् तदवैतस्य सत्याः श्रद्धा भवत् अनुस्वर्गम् लोकमविन्दत सत्याहवानस्य श्रद्धा भवति अनुस्वर्गम् लोकम् विन्दति एतेन हविषाजते देवम् वेद श्रोत्र स्वर्गाय लोकाय ्राम्यहमवे सत्यमस्मिष्यति अनुस्र्गम् अगत तेजरम तथा वेदस्य सत्यं बोधय अन्नसर्कन् लौकमृन्ददे सत्यं बोधय असर्कन् लौकमृन्ददे एतेन अविशान्जिते तौ चैन देवं वेदा सात्रो ज्योतिः अग्नेय स्वाहा ताई स्वाहा परमतेय स्वाहा प्रजापतये स्वाहा तग्गाय लोकाय स्वाहा अग्नेये दृष्ट्रकदे स्वाहेदि तम्रः प्रवेद प्रजापतये परमसामेश्वानं हि तमो येन अस्मि एतेन विशान्त्ये यौचेन देवम् वेद श्रोत्रै स्वाहा स्वर्गाय लोकाय स्वाहासि अहमवेचरणमस्मि मास्व अथ सत्यम् चरणम् भविष्यति अनुस्वर्गम् लोकम् वेत्सति इति स्वाहाय स्वाहापते स्वाहार्गाय लोकाय स्वाहाये स्वाहेति ष्टिभिर्गीजे एवम् वेदृष्टिः ्रूणाम् एतद् अथो बन्धो ऋत्वम् सर्वाः कल्पन्ते एवम् वेदा एषा वै सर्वविद्या एतद्धे शिरम् एषा वन्तिः स्वर्गस्य लोकस्यायस्पोषम् गोपत्यम् ब्रह्मवर्तसी भवति एतानि योध्यैति स्मृत्यात्मानम् प्रजाम् पितॄन् एतानुवाकरणष्कामः प्राञ्छम् चतुर्होदारम् पश्चादम् पञ्चहोदारम् तत्र अर्थः प्राञ्चकोषड्हावारम् उपलिष्टात्प्राञ्चको सप्तहोतारम्पत्तेकाशम् प्रतिग्रहान्दाश्च सर्वाः सेता देवताः प्रीताभीष्टा भवन्ति तदेव रथसंयतश्च दव्यः अज्रोवेर्थः अग्रेणैव्यग्रस्तृणते अक्षसंवितश्चव्यः एतावानवेर्थः यावत्पक्षः रथसंयमेव जिनुते ृणोति आत्मा हि वा एकविंशक्षिणा ददाति एकविंशो वा यत्सर्गो लोकमाप्नोति अथवा एकविंशः तदा यस्त्रजेत सदेन्द्रियः आयश्वरेण्ये परिदर्शति सहस्रं द्वारी साकदम्रे सरकारालागः स्वर्गस्थलोके प्राविदिति निष्कगन्धक्षणादारे अरमाणव्याङ्गम् जी सर्वस्याप्तिः सर्वस्यावृद्धे यदनविन्देदा अन्थानेदा वदौदत्यादौधानानाभाः शुश्रुतेनङ्कारम् तस्मिन् कामायाग्नेश्चिकितेह इष्टो हि परधर्मदयेनदद्यात् सा हि सर्वानपिचरते ब्राह्मणम् ब्रूयात् एतेषु यज्ञेषु यो हवीचतु प्रजयाः कृपेण एते विहोन्तः हे प्राम् भावेभ्यो निर्दक्षिणा अग्नस्य आदः अग्नस्य वृन्तीरन्न एवद्यता श्रद्धं दद्यात् कृत्तमेवैदत्रियदे आस्माकं पुञ्जेदे स्नेष्टो भवति धावद धर्मवङ्गे काण्डयेक वर्षासम्मितं तेजोहरणीयं यदि हरण्यन्दं शक्रात्ता उपदध्यात् तेजोक्षदं तदेन समेव आर्जितंते अग्निं चित्त्वा सोपोत्रा वन्द्या हृदयमित्रौ रण्यावाः येन वा यशोविद्धते यो वाग्निम् जनते ेवता वित्रे ब्राह्मणम् त्यमृतम् यच्च मत्यम् त्यप्राणति येन ऋषिनाथेन ब्रह्मणा या देवतया सर्वास्त्रि यः सर्वान् पुंसः सर्वन्नस्त्रीपुमञ्जि सर्वास्ताः यावन्धपाभूमेः सङ्ख्यादादेव मायया सर्वास्ताः यावन्धऊषाः पशुवनाम् पृथिव्याम् वृत्तिर्हिताः सर्वास्ताः यावदीश्रिगताः सर्वाः अप्सन्दश्रयाश्रिताः सर्वास्ताः यावदीश्व अस्याम् पृथिव्यामदि सर्वास्ताः यावन्तोऽस्मानोऽस्याम् पृथिव्याम् तिष्ठिताः यावदैर्वेरुधः सर्वाः इष्ठिता पृथिवीमनो सर्वास्ताः यावदीरोषधीः सर्वाः इष्ठिताः पृथिवीमनो सर्वास्ताः यावन्द्वौवनस्पदयः अस्याम् पृथिव्यामली सर्वास्ताः यावद्वग्राम्याः पशुवः सर्वे आम्याश्चे सर्वास्ताः द्विपादश्च दुष्पादः अपाद उदरदर्पिणः सर्वास्ताः यावदाञ्जमुच्यते देवत्रायच्छमानुषम् सर्वास्ताः यावम् देवमानुषम् सर्वास्ताः यावल्लोहाय सर्वायच्छमानुषम् सर्वास्ताः सर्वगो देवत्रायच्छमानुषम् सर्वास्ताः सर्वकोसम् देवस्ताः सर्वगो हरितम् ष्टगाः कृत्वा देवतयाङ्गिरस्वध्रुवासीद सर्वादिशो दिक्षो यच्चस्तायष्टगाः कृत्वा उपगामदुघादर्षिणादेन ब्रह्मणा अया देवतयाङ्गिरस्वध्रुवासीद अन्तरिक्षम् च केवलम् यच्चास्मिन्नन्तराहितम् सर्वास्ताः प्रियाः सर्वास्ताः ीचीरित निहारो ैशन्दीतप्रासदीर्याः सर्वास्ताः यत् जीवकाः याश्चन्ति वृष्टयः सर्वास्ताः नमस्ते च आकाशम् इत्याकाशे प्रतिष्ठितम् सर्वास्ताः वायुम् सर्वाणि सर्वास्ताः अग्निगोसौर्यम् चन्द्रम्भगम् सर्वास्ताः सत्यग्रश्रद्धान्तगोधमम् रामरोपञ्चाम् सर्वास्ताष्टकाः कृत्वा देवतया यच्छान्तर्भोतम् प्रतिष्ठितम् सर्वास्ताष्टंशता सर्वाङ्ग्रिये सर्वास्ताः इतिहासपुराणम् च सर्पदेव जनाश्च सर्वास्ताः ये च लोका ये च लोकाः प्रतिष्ठितम् सर्वास्ताः त्राणि सर्वाणि अर्धमासागश्च केवलास्ताः सर्वास्ताष्टकाः कृत्वा उपकामधिपादते हतीक्ष्यते दक्षिणा हैव दृष्टम् <Sess> <Sess> भ्यो जातम् वै शतम् नमो अधर्वेदं छत्रैसा वर्योनि सामवेदो प्राङ भनानां पुसोधे पूर्वे पूर्वे एव भजेत दुजो आदरज मग्न्यं दानाहः पूर्वे विश्वदोपदाः नम्बर्षादः हस्मानि प्राणोद्धर्यरभवत्ताम् आहृतः प्रतिप्रादिष्ठतद्धरे आत्तमा उपगाधारः भवन् अर्धमासाश्च अतमादर्येव भवन्न समु सत्त्रं परस्तेजः अछागव भवतिशः प्रथमेषां प्रधास्तासि हिते तद्विश्वसजः सदा पूर्गराज अमृतवद भगवद भगवः सवगा बसतः भगवद औजाभ्यष्टो ग्राम्नः तद्विश्वसृहा तथा अवजनेत् पात्रां क्रियामयेते श्रेत्रियामयेति आगमे इत्रादति सत्यं श्रद्धाैवैव स्वयम् रावत्ने विशुद्धजां आगोदर्पनर्थैः यद्मामोहाक्षत्रीभ्य उग्रे कृष्णाचावहता उभे भागे शाकम् सुब्रह्मण्यासी एतत् छन्दो योगा न विजानतित्राणि तन्मानाः सद्ग्रस्थास्य सर्वशः अहोरात्रे पशुपाद्यौ मुहूर्ता प्रेष्या भवन् प्रथमा सत्रमासदा सहस्रतमम् प्रसते नयिन्तः ततो भवनस्य गोपाः हिरण्मयशुकनिर्ब्रह्मनाम येन सो यस्तपदितेरसेधापुत्रेण विमानयोनौ नावेदविन्दर्देतम् सर्वानुसम्परायेमाभ्राह्णस्य कर्मणा विधतेनोकनीयान् अस्यैवात्मापदवित्तम् विदित्वा न कर्मणा लिप्यते पापजेन अञ्जपञ्चाशदस्त्रिपदः संवत्सराः अनुजपञ्चाशदः पञ्चदशाः अनुञ्जपञ्चाशत् सप्तदशाः अनुजपञ्चाशद जासहस्रसंवत्सरम् एते ने प्रजायते ब्रह्मन्ति एता एतद् द्वादशप्रश्नः समाप्तः श्रीकृष्णयजुर्वेदतैतरीयब्राह्मणश्च समाप्तः